श्रीहरये नमः अथ द्वाविंशोऽध्यायः राजोवाच यदेतद्भगवत आदित्य त्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो रासिनामभिमुखम् प्रचलितम् च अप्रदक्षिणं भगवता उपवर्णितम् अमुष्यमयं कदमनुमिमी महीतिः सहोवाच यथा कुलचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकाधीनां कदिरन्यैव प्रदेशान्तरेष्वपि उपलभ्यमानत्वात् एवं नक्षत्रराशिभिर् उपलशितेन कालचक्रेण ध्रुवं मेरुं प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणाम् सूर्यादीनां ग्रहाणां कधिरन्यैव नक्षत्रान्तरे राश्यन्तरेशोपलभ्यमानत्वात्स एष भगवानादिपुरुष एव साक्षाण् नारायणो लोकानाहं स्वस्तय आत्मानं त्रयेमयम् कर्म विशुद्धिनिमेत्तं कविभिरपि च वेदेन विजिज्ञास्य मानो त्वधा सधा विभजषत्सो वसन्तादिषु ऋतुषो यतो भजोषं मृदुगुणान् तमेतमिह पुरुषास्त्रैया विद्ययाः वर्णाश्रम आचारनुपत उच्चावचैकर्मभि आम्ना तेर्यो गवितानैश्च श्रद्धया यजन्तो ज्ञजसा श्रेये समधि गच्छन्ति अत स द्यावापृथिव्योऽन्तरेण नभोवलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते राशीसमज्ञान् संवत्सरावयवान् मासः पक्षद्वयं दिवा चेति सभा दर्श त्वयम् उभति सन्ति यावता षष्टमं संभुञ्जीतस वै ऋतुरित्युपदिश्यते संवत्सरावयवः अथ च या वार्ताध्येन नो भो विद्यां प्रचरति तं कालं नयनम् आचक्षते अथ च यावन्नभो मण्डलं सहद्या वापृथिव्योर्मण्डलाभ्यां कार् स्नेयन सह भुञ्जीत तं कालं संवत्सरं परिवत्सरं गिढावत्सरम् अनुवत्सरं वत्सरमिति भानोर्मान्द्य शैग्र्यमसमगतिभिः समामनन्ति एवं चन्द्रमार्गगभस्तिभ्य उपरिष्टाल्न क्षयोजन तवो बलभ्यमानो अर्घस्य संवत्सर्वोक्तिं पक्षाभ्याम् मासभुक्तिं सभादर्षभ्यां दिनेनैव भक्षभुक्तिमग्रचार्ये धृतरगमनो भुङ्क्ते अथ च आपूर्यमाणाभिश्च कलाभिरमरणा हीयमाणाभिश्च कलाभिः पितॄणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तयेर्भुङ्क्ते स एष सोढसकलपुरुषो भगवान मनोन्मयो नमयो मृतमयो देव पित्रो मनुष्यभूतः पशुपक्षी सरीषु विरोधा प्राणाप्यायनशील सर्वमय इति वर्णयन्ति ततपुरिष्ठा त्रिलक्षयो जनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन योजितानि सखाभिजिताष्टाविंशति तत उपरिष्ठा तु द्विलक्ष यो जन तवपलभ्यते पुरतः पश्चात् सहैव वार्कस्य सैघ्य मान्द्यसाम्याभिर्घतिभिरर्घवश्चरते लोकानां सहृष्टिविष्टं भग्र होपसमनः उसनसा भूतो व्याख्यातस्तथ उपरिष्टाद्विलक्षयो जनतो बुधः सोमसुतमुपलभ्यमानः येण शोभकृ व्यतरिष्यते तथा अतिवाताभ्र अप्रयानावृष्ट्यादिभयम् आशंसते अथ ऊर्ध्वमङ्गारकोऽपि योजनं लक्षद्वितय उपलभ्यमान त्रिभिस्त्रिभिःपक्षैरेकैकसोरासीन्धातसानुभुङ्क्ते यदीन वक्रेण अभिवर्तते प्रायेणासुभग्रहो गसंसह तत उपरिष्टाद्विलक्षयोजनान्तर्गतो भगवान् बृहस्पतिः एकैकस्मिन्रासो परे त्वत्सरं परेत्वत्सरं, परेत्वत्सरं चरति यदि नवक्रश्यात् प्रायेणानुकूलो ब्राह्मणकुलस्य तत उपरिष्ठाद्योजन लक्षद्वयात् प्रतीयमानशनैश्चरः एकैकस्मिन्रासो त्रिंसन्मासान् विलम्बमानः सर्वानेवानुपर्येति तावद्भिः अनुवत्स्रै प्रायेण हि सर्वेषामशान्तिकरः तथ उत्तरस्मातृषय एकादश लक्षयोजनान्तरमुपलभ्यन्ते स एव लोकानां समनुभावयन्तो भगवतो विष्णो परमं पदं प्रदक्षिणं प्रक्रमन्ति इति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते ज्योतिश्चक्रवर्णेन द्वाविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महाराज के जय